मार्कण्डेयपुराणम् अध्यायं हण्ड्रेड् अण्ड् तर्टी दमचरितवर्णनं मार्कण्डेय उवाच नरिष्यन्तस्य तनयो दमनो दमः शक्रस्येव बलं तस्य दयाशीलं मुनेरिव बभ्राव्यामिन्द्रसेनायाम् जज्ञे तस्य भूभृतः नववर्षाणि जठरे स्थित्वा मार्तुर्महायशाः यद्ग्राहयामास दममादरं जठरे स्थितः दमशीलश्च भविता यतश्चायं नृपात्मजः ततस्त्रिकालविज्ञानसहितस्य पुरोहितः दम इत्यकरोन्नाम नरिष्यन्तसुतस्य तु स दत्तो राजपुत्रस्तु धनुर्वेदमशेषदः जगृहे सुरराजस्य सकाशाद्वृषपर्वणः दुन्दुभेर्दैत्यवर्यस्य तपोवननिवासिनः सकाशाजगृहे कृष्णमस्त्रग्रामं च ततः शक्तेः सकाशाद्वेदाश्च वेदाङ्गान्यखिलानि च योगमात्मवान् तं सुरूपं महात्मानं गृहीतास्त्रं महाम्बलम् स्वयंवरे कृतापित्रा जगृहे सुमनापदिं सुधा दशार्णाधिपदेर्बलिनश्चारुवर्मणः पश्यतां सर्वभूतानां ये तदर्थमुपागताः तस्यां च सानुरागो भून्मद्रराजस्य वै सुतः सुमनायां महानन्दो महाबलपराक्रमः तथा विदर्भाधिपदेः पुत्रः सङ्क्रन्दनस्य च वपुष्मान् राजपुत्रश्च महाधनुरुदारधीः ते तदा तं मृदं दृष्ट्वा दुष्टारिदमनं दमं मन्त्रयामासुरन्योन्यं तत्रानङ्गविमोहिताः येदामस्य बलात्कन्याम् गृहीत्वा रूपशालिनीं गृहं प्रयामस्तस्येयमस्माकं यं ग्रहीष्यति भर्तृबुद्ध्या वरारोहा स्वयंवरविधानतः तस्येच्छयानो भवित्री धार्या धर्मोपपादिता अध नेच्छति सा कञ्चिदस्माकं मदिरेक्षणा ततस्तस्य भवित्री सा यो दमं खादयिष्यति मार्कण्डेय उवाच इति ते निश्चयं कृत्वा त्रयःपार्थिवनन्दनाः जगृहुस्तां सुचार्वङ्गीं दमपार्श्वानुवर्तिनीं तथक् के ये तत्पक्षा विचुक्रुशु चुक्रुशुच्चापरेशूपिमध्यस्त तदो दमस्तावलोक्य समत अनाकुलम्यदमाह महामुने तदो दमस्तावलोक्य समत अनाकुलनावाक्यदमाह महा मुने दम उवाच भो भूपा वरं भूपर्मकृत यदिस्वयर स्वयं वरे अधर्मो वाध वाधवाधर्मो यदेह्य यदे बलाद यद्यधर्मो न मे कार्यमन्यभार्या भविष्यति धर्मो वा तदलं प्राणैर्ये रक्षन्त्येरिलङ्घने ततो दशार्णाधिपतिश्चारुवर्मा नराधिपः निःशब्दं कारयित्वा तत्सदःप्राहमहामुने दमेन यदिदं प्रोक्तम् धर्म धर्म्रिदृपा तम यहाँ मम से चन लुप्यते उवाच मकंडेय उच तथ के गांधर्वो गाधर्व विधि क्षत्रियाणां परमयं न विश्शूद्रद्विजन्मनां दममाश्रित्य निष्पन्नः स चास्य दुहिदुस्तव इति धर्माद् दमस्यैषा दुहिता तव पार्थिव योऽन्यथा वर्तते मोहात् कामात्मा सम्प्रवर्तते तथा परे तदा प्रोचुर्महात्मानो हि भूभृतां पक्षे ये भूभृतो विप्रदशार्णाधिपतिं वचः मोहात् किमाहुर्धर्मोऽयं क्षत्रजन्मनः न त्वेष हि राक्षसश्रजीविनाम् बलादिमां यो हरदि हत्वादु परिपन्थिनः तस्यैषा विवाहेना वनीश्वराः प्रधानतरयेशोत्र विवाहद्वितये मदः क्षत्रियाणामदो धर्मा महानन्दादिभिकृतः मार्कण्डेय उवाच अथ पुनर्भूपा पुनर्भूप यैः पूर्वमुदितो नृपः परस्परानुरागेण जातिधर्माश्रितं वचः सत्यं शस्तो राक्षसोभिक्षत्रियाणां परो विधिः किं त्वसौ जनकस्वाम्ये कुमार्यानुमदो वरः हत्वाद् पितृसम्बन्धं बलेनः ह्रियदे हि या स राक्षसो विधिः प्रोक्तो नात्रभर्तृकरेष्ठिता पश्यतां सर्वभूपानामनया यद्वृतो दमः गान्धर्वस्येहनिष्पत्तौ विवाहो राक्षसोऽत्र कः विवाहिताय कन्यायाः कन्यात्वं नैव विद्यते कन्यायाश्च विवाहेन सम्बन्धः पृथिवीश्वराः त इमे ये बलादेनां दमादादुमुद्यताः बलिनस्ते यदि तथा कुर्वन्तु न उवाच दमकोप मकंडेय उच तत्वा सौ दोपकोचन आरोपयाम स धनुर्वचनम्चेद्रवीद मापी भार् बलिप्यद्रीयदे यदि तत्कुन भुजाभ्या वो गुणक्लीबजन्मनः दिग्ममास्त्राणि धिक्चौर्यं धिक्चरान् धिक्चरासनं धिं कुले जन्म मरुत्तस्य महात्मनः यदि भार्यामि मे समादाय बलान्विताः प्रयान्तिजीवदोऽधिक्तां मम व्यर्थमनुष्यताम् इत्युक्त्वा तान्महीपालान्महानन्दमुखान् ता बली अथा ब्रवीत्तदा सर्वान् महारिधमनोदमः येषादिशोभना बाला सार्वङ्गीमधिरेक्षणा किं तस्य जन्मना भार्या नयस्येयं कुलोद्भवा इति सञ्चिन्त्य भूपालास्तथा यततसंयुगे यथा निर्जित्य पत्नीं कुरुदमानिनः इत्या भाष्यततस्तत्र शरवर्षममुञ्चद चादयन् पृथिवीपालां स्तमसेव महीरुहान् वीरा वीरामहीपाला शरशक्त्यष्टिमुद्गरान् मुमुचुस्तत्प्रयुक्तांश्च दमश्चिच्छेदलीलया तेऽपि तत्प्रहितान् बाणांस्तेषां चासौ शरोत्करान् चिच्छेदपृथिवीशानां नरिष्यन्तात्मजो मुने वर्तमाने तदा युद्धे दमस्य क्षिदिपात्मजैः प्रविवेश्यमहानन्दः खड्गपा निर्यधो दमः तमायान्तं दमो दृष्ट्वा खड्गपा महामृधे मुमोच शरवर्षाणि वर्षाणीव पुरन्दरः तदस्त्राणि ततस्तानि शरजालानि तत्क्षणाद् महानन्दत्प्रचिच्छेद खड्गे नान्यानवञ्चयत् ततोरोषात्समारुह्य तं दमस्य तदारथम् महानन्दो महावीर्यो दमेन युयुधे सः बहुधा युध्यमानस्य महानन्दस्य लाघवाद दमो मुमोचहृदये शरं कालानलप्रभम् संलग्नमात्मनोत्कृष्य विभिन्नेन तदोहृता दमं प्रदि विचिक्षेपमहानन्दोऽसि उज्ज्वलं पदन्तं चैनमुल्काभं शक्रिया चिक्षेपदं दमः शिरो वेदस पत्रेण महानन्दस्य चाच्छिनत तस्मिन् ह्रदे महानन्दे प्राचुर्येण पराङ्मुखाः बभूवुः पार्थिवास्तौ वपुष्मान्कुण्ठिनाधिपः वा दमेन युयुधे चासौ बलगर्वमदान्वितः दाक्षिणात्यमहीपालतनयोरणगोचरः युध्यमानस्य तस्योग्रम् करवालं स वैलघु चिच्छेद सारथेश्चैव शिरस्सङ्ख्ये तथा ध्वजं छिन्नखड्गो गदां शोध जग्राहबहुकण्टकां तामप्यस्य स चिच्छेद करस्थामेव सत्वरः यावदन्यत्समाधत्त ते स्वपुष्मान्वरायुद्धं तावच्छरेण तं विद्ध्वा दमो भूमावपातयत् सपातितस्ततो भूमौ विह्वलाङ्गः सवेपधुः विनिवृत्तमधिर्युद्धात् बभुवक्षितिपात्मजः तमालोक्य तथाभूतमयुद्धमधिमात्मवान् उत्सृज्यादाय सुमनां सुमनाः प्रययौ तदो दशार्णाधिपधिः प्रीतिमानकरोत्तयोः दमस्य सुमनायाश्च विवाहं विधिपूर्वकम् कृदारोदमस्तत्र दशार्णाधिपदे पुरे स्थित्वाल्पकालं प्रययौ सभायो निजमन्दिरं दशार्णाधिपतिश्चासौ दत्वा नागांस्तुरङ्गमान् रथगोश्वखरोष्ट्रांश्च दासीदासांस्तथा बहून् वस्त्रालंकारचापादि वस्त्रालङ्कारचापादिवरोपस्करमासनम् अन्यैस्तैस्तथाभाण्डैः परिपूर्णं व्यसर्जयत् इति श्रीमार्कण्डेयपुराणे दमचरिते त्रिंशदधिकशतमोऽध्यायः ओ